अथा कृष्णयजुर्वेदे क्रमपाठे षष्ठकाण्डे षष्ठः प्रश्नः प्रारम्भः ॐ स्वर्गाय वै स्वर्गायति स्वभागाय मा एतानि एतानि लोकाय लोकाय पूयन्ते पूयन्ते यत् यद् दाक्षिणानि द्वाभ्याम् त्वाभ्याम् गार्हवत्ये गार्हवत्ये जुहोति गार्हवत्येति गार्हत्ये जहोति द्विपाद्विपाद्युजमानः ीपात् यजमानः प्रतिष्ठित्यै प्रतिष्ठित्या आग्नेयघ्रे प्रतिष्ठित्या इति प्रदेशिः आग्ने आग्नीयध्रेत्यन्तरिक्षे अन्तरिक्ष एव आक्रमते क्रमते सदा सुलोभि अभ्या ऐति एति स्वर्गम् स्वर्गमेव स्वर्गमिति स्वभागम् एवैनम् एनम् लोकम् नमैति सौरीभ्याम् सौरीभ्या मृग्भ्यः ऋग्भ्याङ्गारहवृत्ते गारः नित्यभ्याम् गार्हवृत्ते जुहोति गारहवृत्तेति गार्ह वृत्तेः जहोत्यमुम् अमुमेव एवैनम् लोककम् समारोहयति समारोहयति नयवत्या समारोहयतीति समारोहयति नयवत्यर्च नयवत्येति नयावत्यः अर्जाग्नीघ्रे आग्नेघ्रे जुहोति आग्नेध्वरित्याग्नेयुध्रे लुभोदिवर्गस्य स्वर्गस्य लोकस्य स्वर्गस्य यदि सुवभागस्य लोकस्याभिनीत्यै अभिनीत्यै दिवम् अभिनीत्यादित्यभिनीत्यै दिवङ्गच्छ सुवः सुवः पदति इति हिरण्यम् हिरण्यम् उक्त्वा कृत्वागृह्णाति गृह्णाति स्वर्गम् स्वर्गमेव स्वर्गमिति सुवभागम् एवम् लोकम् लोकम् गमयति गमयति रूपेण रूपेण वः रूपम् रूपमभि अभ्या ऐमि एमिति इत्याह रूपेण रूपेण हि यासाम् आसागम् रूपम् रूपमभि अभ्या ऐति एरण्येन हिरण्येन तथः तथो वः विश्ववेदाः विश्ववेदः इति विश्ववेदाः विभजतु भजत्विति इत्याह आह ऋथः ऋथोः स्म स्म वै वै विश्ववेदाः विश्ववेदाः देवानाम् दक्षिणाः दक्षिणावि विभजति भजतेन तेनैव एवैनाः एनावि विभजति भजत्येतत् एतत्ते ते अग्ने अग्नेराधः राधा ऐति एति सोमच्युतं सो सोमच्युतमिति सोमच्युतमिति सोमाच्युतम् इत्याह आह सोमच्युतम् सोमच्युतघं हि सोमच्युतमिति सोमाच्युतम् यस्य तस्य राधः राधा ऐति एति तत् तन्मित्रस्य मित्रस्य पथा पथा नय नयेति इत्याहशान्ति शान्त्या पथाप्र प्रेत इत चन्द्रदक्षिणाः चन्द्रदक्षिणा इति चन्द्रदक्षिणा इति चन्द्रदक्षिणाः इत्याह आहसत्यम् सत्यम् वै वा सत्येन सत्येनैव एवैनाः तेन रतेन ऋतेनपि विभजति भजति यज्ञस्य यज्ञस्य पथा पथा सुविता सुविता नयन्तीः नयन्तीविधि इत्याह आहयज्ञस्य यज्ञस्य हि एताः एताः पथा तथा यन्द्रि एन्द्रियद् यद्दक्षिणाः दक्षिणा ब्राह्मणम् ब्राह्मणमद्य अद्यराराध्यासम् राध्यासमऋषिम् ऋषिमारुषेयम् आरुषेयमिति इत्याह आहैषः एष वै वै ब्राह्मणः ब्राह्मणऋषिः ऋषिरारुषेयः आरुषेयो यः शुश्रुवान् शुश्रुवान् तस्मात् तस्मादेवम् एवमाह आहविसुवः सुमः पश्य पश्यवि द्व्यन्तरिक्षम् अन्तरिक्षमिति इत्याह आह सुवर्गम् सुवर्गमेव स्वर्गमिति सुभागम् एवैनम् एवम् लोकम् गमयति गमयति यतस्व यतस्व सदस्यैः सदस्यैः इत्याह आह मित्रत्वाय मित्रत्वायास्मद्दात्राः मित्रत्वायति मित्राय अस्मद्दात्रा देवत्रा एवत्रागच्छत देवत्रेति देवात्रा गच्छत मधुमतीः मधुमतीः प्रदातारम् मधुमतीरिति मधुमतीः प्रदातारमा प्रदातारमिति प्रादातारम् आविशत विशतेति इत्याह आह वयम् अयमिह इह प्रदातारः प्रदातारः स्मः प्रदातार इति प्रादातारः स्मोऽस्मान् अमुदरमधुमतीः मधुमतीरा मधुमतीः आविशत विशतेति इति वाव वावै एतदाह आह हिरण्यम् ददाति ददाति ज्योतिः ज्योतिर्वै वै हिरण्यम् हिरण्यम् ज्योतिरेव एव पुरस्तात् पुरस्ताद्धत्ते धत्ते स्वर्गस्य स्वर्गस्य लोकस्य स्वर्गस्य सुभागस्य लोकस्य अनुक्ष्यात्यै अनुक्ष्यात्याग्नीधे अनुख्यात्या इत्यनुख्यात्यै अग्निधे ददाति अग्निधरित्यग्नीधे ददात्यग्निमुखान् अग्निमुखानेव अग्निमुखान् इत्यग्निमुखान् एव ऋतून् ऋतून् प्रीणाति प्रीणाति ब्रह्मणे ब्रह्मणे ददाति ददाति प्रसूद्यि प्रसूद्यि होत्रे प्रसूद्य इति प्रासूद्य होत्रे ददाति ददात्यात्मा आत्मावि एषः एष यज्ञस्य यज्ञस्य यत् यद्भोता भवतात्मानम् एव यज्ञस्य यज्ञस्य दक्षिणाभिः दक्षिणाभिः सम् समर्थयति अर्धयतीत्यर्थयति समिष्टयजोगुंषि जुहोति समिष्टयजोगुंषी इति समिष्टा यजोगुंषि जुहोति यज्ञस्य यज्ञस्य समिष्टैः समिष्टि यत् समिष्ट्या इति सामिष्टिः यद्वै वै यज्ञस्य यज्ञस्य क्रूरं क्रूरं यद् यद्विलिष्टम् विलिष्टं यद् विलिष्टमिति विलिष्टम् यदद्येति अत्येत इत्यति अत्येतत् अत्येति इत्यति यदतिकरोति अतिकरोति यत् अतिकरोति नापि अपि करोति करोति तदेव एव तैः तैः प्रीणादि प्रीणाति नव नवजिहोति जुहोति नव नव वै वै पुरुषे पुरुषे प्राणाः प्राणाः पुरुषेण प्राणा इति प्राणाः पुरुषेण यज्ञः यज्ञः संमितः संहितो यावान् संमित इति संमितः व्यावानेव एव यज्ञः यज्ञस्तम् तम् प्रीणाति प्रीणातिषड् षड्ग्मयाणि ऋग्म्याणि जुहोति जिहोति षड् षड्वै वार्तवः ऋतवर्तून् ऋतूमेव एव प्रीणादि प्रीणादि त्रीणि त्रीणि यजोगुंषि यजोगुंषि इमे लोकाः लोका इमान् इमानेव एव लोकान् लोकान् प्रीणाति प्रीणादि यज्ञ यज्ञयज्ञम् यज्ञम् गच्छ गच्छ यज्ञपतिम् यज्ञपतिम् गच्छ यज्ञपतिमिति यज्ञावृतिम् गच्छेति इत्याह आह यज्ञपतिम् यज्ञपतिरेव यज्ञपतिमिति यज्ञावृतिम् एवै गमयति स्वाम् स्वां योनिम् योनिम् गच्छ गच्छयति इत्याह आह स्वाम् स्वामेव एवनिम् योनिम् गमयति अमयत्येषः एषते ते यज्ञः यज्ञो यज्ञपदे यज्ञपदे सहसूक्तवाक्रहः यज्ञपद इति यज्ञापते सहसूक्तवाक्रः सुवीरः सहसूक्तवाक इति सहसूक्त्यावाक्रः सुवीर इति सुवीर इति सुवीरः नित्याह आह यजमाने यजमान एव वीर्यम् वीर्यम् दधाति दधाति वासिष्ठः वासिष्ठोः असात्यहव्यः सात्यहव्यो देवभागम् सात्यहव्य इति सात्यहव्यः देवभागम् पप्रच्छ देवभागमिति देवभागम् यत्सञ्जयान् सञ्जयान् बहुयाजिनः महुयाजिनो अयीजः बहुयाजन इति बहुयाजिनः अयीयजो यज्ञे यज्ञे यज्ञम् यज्ञम् प्रति प्रत्यधिष्ठिपा अधिष्ठिपा यज्ञपता यज्ञपता इति यज्ञपता ीति यज्ञपता इति सः सः होवाच उवाचयज्ञपतौ यज्ञपताविति यज्ञपताविति यज्ञापतौ इति सत्यात् सत्याद्वै द्वि सञ्जयाः सञ्जयाः पराः परा बभूवुः बभूवरिति इह उवाच उवाचयज्ञे यज्ञे वावयज्ञः यज्ञः प्रतिष्ठाप्यः प्रतिष्ठाप्य प्रतिष्ठाप्य इति प्रतिष्ठाप्यः आसीद् यजमानस्य विजमानस्यापराभावाय अपराभावायेति अपराभावायेत्यपराभावाय इति देवाः देवा गातुमिदः गातुमिदो गातुम् गातुमिद इति धातुविदः गातुम् विद्वा वित्वा गातुम् गातुमिद इति इत्याह आह यज्ञे यज्ञ एव यज्ञम् यज्ञम् प्रति प्रतिष्ठापयति स्थापयति यजमानस्य यजमानस्यापराभावाय अपराभावायेत्यपराभावाय अपभृतयजोगुंषि करोति अपभृतयजोगुंशि इत्यवभृता यदेव एवार्वाचीनम् अर्वाचीनमेकहायनात् एकहायनादेनः एकहायनादित्येकाहायनात् येनः करोति करोति तदेव देवतैः तैरव अपरिजते यजदेवः अपोपभृतम् अपभृतमव अपभृतमित्यवभृतम् अवैति एत्यप्सु अप्सु वै अप्स्वित्यपुरुषो वै वरुणः वरुणः साक्षात् साक्षादेव साक्षादिति साक्षात् एव वरुणम् वरुणमव अवयजरे यजरे वर्त्मनः वर्त्मना वै वा अन्वित्या अन्विते यज्ञम् अन्वित्य यज्ञकम् रक्षाकुंसि रक्षाकुंसिघागुंसन्ति लिखागुंसन्ति साम्नाः साम्नाः प्रस्तोता प्रस्तोतान्भवैति प्रस्तोतेति प्रास्तोता अन्भवैति साम अन्भवैति इत्यनु अवैति साम वै वै रक्षोः रक्षोः रक्षसाम् रक्षोहेति रक्षसाः रक्षसामपहत्यै अपहत्यै त्रिः अपहत्या इत्यपहत्यः त्रिनिधनम् निधनमुप निधनमितिनिधनम् उभैति एति त्रयः त्रय इमे लोकाः लोका, लोका एभ्यः एव एव एब, लोकेभ्यो लोके रक्षापुंसि रक्षादस्य वा अपहन्ति हन्ति पुरुषः पुरुषः पुरुषः पुरुषो निधनम् पुरुषः पुरुष इति पुरुषः पुरुषः निधनमुप निधनमिति निधनम् उपैति ये पुरुषः पुरुषः पुरुषः पुरुषो हि पुरुषः पुरुष इति पुरुषः पुरुषः रक्षसी रक्षसी रक्षसाम् अपहत्या उरुम् अपहत्या इत्यपहत्यै उरुं हि हि राजा राजा वृणः ऋणश्चकार चकारेति इत्याह आह प्रतिष्ठित्यै प्रतिष्ठित्यै शतम् प्रतिष्ठिद्या इति प्रति स्थित्यैः शुतन्ते ते राजन् राजन्भिषितः भिषतः सहस्रम् सहस्रमिति इत्याह आह भेषजम् भेषजमेव एवास्मै अस्मै करोति करोद्यभिष्टितः अभिष्ठितो वर्णस्य अभिष्टित इत्यभीष्टितः वर्णस्य पाशः पाश इत्याह आह वर्णपाशम् वर्णपाशमेव वर्णपाशमिति एवाभि अभितिष्ठति तिष्ठति बर्हिः बर्हिरभि अभिजुहोति रहोत्याहुदीनाम् आहुदीनाम् प्रतिष्ठिति आहुदीनामित्याहुदीनाम् प्रतिष्ठित्या अथो प्रतिष्ठित्या इति प्रदिशिति अथो अग्निवदि अथो इत्यथो अग्निवत्येव अग्निवतीत्यग्निवदि एव जुहोति युहोत्यपबर्हिषा अपबरिहषः प्रयाजान् अपबरिहषित्यप्रापरिषः प्रयाजान् यजति प्रयाजाति प्रायान् यजदिप्रजाः प्रजा वै प्रजा इति प्राजाः वै बर्हिः परिहप्रजाः प्रजा एव प्रजा इति प्राजाः एव वर्णपाशात् वर्णपाशान्मुञ्चति वर्णपाशादितिवर्णपाशात् वञ्चत्याद्यभागौ आद्यभागौ यजदि आद्यभागावित्याद्यभागौ यजुग्यज्ञस्य यज्ञस्यैव एव चक्षुषि चक्षुषी न चक्षुषी इति अन्तरेति एति वर्णम् अरुणम् यजति यजति वर्णपाशाद् वर्णपाशादेव वर्णपाशादिति वर्णपाशाद् एवैनम् एनम् वञ्चति वञ्चत्यज्ञीवर्णौ अग्निवर्णौ यजति अग्निवर्णाविद्यज्ञीवर्णौ यजति साक्षात् साक्षादेव साक्षादिति साक्षाद् एवैनम् एनम् वर्णपाशात् वर्णपाशान्मुञ्चति वर्णपाशादिति वर्णापाशाद् मुञ्चत्यपबलेशौ अपबलेशावनो याजौ अपपलिषा विद्यपाबलेशौ अनो याजो यजति अनो याजाविद्यनो याजौ प्रजाः वै बड़हे, बड़हे प्रजा वै प्रजा इति प्राजाः वै बर्हि बर्हि प्रजाः प्रजा एव प्रजा इति प्राजाः एव वर्णपाशाद् वर्णपाशान्मुञ्चति वर्णपाशादिति वर्णपाशाद् मुञ्चति चतुरः चतुरः प्रयाजान् प्रयाजान् भावनो याजौ नो याजौ षड् नो सम्पद्यन्ते लभ्यन्ते षड्वै पार्थवः रथमर्तृषु ऋतुष्वेव एव प्रति प्रतिष्ठति तिष्ठत्यवभृत अवभृत निजङ्गुण अवभृते निजङ्गुणे निजङ्कुणेति निजङ्ुण इत्याह आह यथोदितम् यथोदितमेव यथोदितमिति एव वरुणम् वरुणमव अवयजते यजते समुद्रे समुद्रे ते ते हृदयम् हृदयमप्सु अप्स्वन्तः अप्सृज्ञपसु अन्तरिति इत्याह आह समुद्रे समुद्रे हि वरुणः सम् सन्त्वाशन्तु पिशन्तोषधीः ओषधीरुत उतापः आपति इत्याह आहाद्भिः अद्भिरेव अद्भिरिद्यतद्भिः एवम् एनमौषधीभिः ओषधीभिः संयञ्जम् ओषधीभि जोषधीभिः संयञ्जम् दधाति दाति देवीः देवीरापः आप एषवः को गर्भः गर्भ इति इत्याह आह यथायजुः यथायजुरेव यथायजुरिति यथायजुः एवैतत् एतत्पशवः पशवो वै वै सोमः सोमो यत् यद्भिन्दूनाम् भिन्दूनाम् भक्षयेत् भक्षयेत्पशुमान् पशुमान् स्यात् पशुमान् इति पशुमान् स्याद्वरुणः ेन गृह्णीयात् गृह्णीयाद्यत् यन्न न भक्षेर् भक्षेरपशुः अपशुः स्यात् स्यान्न लैनम् एनम् वरुणः वृणो गृह्णीयात् गृह्णीयादुपस्पृश्यम् उपस्पृश्यमेव उपस्पृश्यमित्युपास्पृश्यम् एव पशुमान् पशुमान् भवति पशुमान्दि पशुमान् भवति न लैनम् वरुणः वरुणो गृह्णादिप्रतियुतः प्रतियुतो वर्णस्य प्रतियुत इति प्रतीयुतः वर्णस्य पाशः पाश इति आह वर्णपाशाद् वर्णपाशादेव वर्णपाशादिति वर्णपाशाद् एव निर्मुच्यते मुच्यते प्रतीक्षम् अप्रतीक्षमा अप्रतीक्षमित्यप्रतीक्षम् आयन्ति यन्ति वरुणस्य वरुणस्य अन्तरिहित्यै अन्तरिहित्यायेधः अन्तरिहित्यायत्यन्तः विद्यै एधोऽसि धीमहि एधि धीमहिति विद्याह आह समिधाः समिधैव समिधेति संविधाः एवाग्निग्निर्नमस्यन्तः नमस्यन्त उपायन्ति उपायन्ति तेजः उपायन्ति इत्यपायन्ति तेजोऽसि असि तेजो मयि मयि धेहि धेहीति इत्याह आहतेजः तेज एव एवात्मन्य एवा आत्मन् आत्मन धत्ते धत्त इति धत्ते स्फेन वेदिम् वेदिमत् रुद्धन्ति हन्ति लथाक्षेण रथाक्षेणपि रथाक्षेणेति रथाक्षेण विमीदे विमीदे यूपम् यूपम् विनोदि विनोदि त्रिवृतम् त्रिवृतमेव त्रिभृतमिति त्रिवृतम् एकवर्ज्रम् अर्ज्रगम् संहृत्य संहृत्य भ्रातृव्याय प्रहरति प्रहतिसृत्यै सृती यत् यदन्तर्वेदि अन्तर्वेदि विनुयात् अन्तर्वेदी इत्यन्तः वेदि विनुयाद्देवलोकम् देवलोकम् एव लोकमिति देवालोकम् अभिजयेत् ्यजेद्यत् यद्बहिर्वेदि बहिर्वेदि मनुष्यलोकम् बहिर्वेदीति बहिः वेदि मनुष्यलोकम् वेद्यन्तस्य मनुष्यलोकमिति वेद्यन्तस्य सन्धौ वेद्यन्तस्य यदि वेदि अन्तस्य सन्धौ विनोति सन्धाविति सन्धौ विनोद्युभयोः अभिजित्या उपरसंहिताम् अभिजित्या इत्यभिजित्यैः उपरसंहिताम् विनयात् उपरसंमिलामित्युपरासम्मिलाहम् पितृलोकरान् पितृलोकरामस्य पितृलोकामस्य मनुष्यलोकरामस्यलोकरामस्य तृषारम् मनुष्यलोकरामस्य मनुष्यलोकामस्य चषालसम्मिधामिन्द्रियरामस्य चषालसंमिदामिति तुम् इन्द्रियरामस्य प्रसपा इन्द्रियरामस्य इन्द्रियरामस्य सर्वान् समान् समान् प्रतिष्ठा कामस्य प्रतिष्ठा कामस्य ये प्रतिष्ठा कामस्येति प्रतिष्ठा कामस्य ये त्रयः त्रयो मध्यमाः मध्यमास्तान् तान् समान् समान् पशुरामस्य पशुरामस्यैतान् पशुरामस्येति पशुरामस्य एतान् वै वा अनु अनुपशवः पशव उप उपतिष्ठन्ते तिष्ठन्ते पशुमान् पशुमानेव पशुमान् इति पशुमान् एव भवते भवतिर्व्यतिशेत् यदिषदेदितरान् यतिषदेदितिवि अतिषयेत् इतरान् प्रथयाः प्रथयैव प्रथयेदि प्राजयाः एवम् एनम् पशुभिः पशुभिर्व्यतिषजति पशुभिरिति पशुभिः यतिषयम् यदिषतिदि अतिषजति यम् कामयेत कामयेत प्रमायुगः प्रमायुगः स्यात् प्रमायुग इति इति कर्तमिदम् कर्तमिदम् तस्य कर्तमिदमिति तस्य विनयात् क्रियादुत्तरार्ध्यम् उत्तरार्ध्यम् वरिष्ठम् उत्तरार्ध्यमित्युत्तरार्ध्यम् वरिष्ठमथ अथः कृसीयागुंसम् कृषीयागुंसमेषा एषा वै वै कर्तमिद् वर्तमिद्यस्य वर्तमिदिति कर्तमित् यस्यैवम् एवम् विनोति विनोति ताजक् ताजक्प्रमीयते मीयते दक्षिणाघ्यम् वरिष्ठम् दक्षिणार्भ्यमिति दक्षिणार्ध्यम् वरिष्ठम् सुवर्गकामस्य सुवर्गकामस्याथ सुवर्गकामस्य इति सुवर्गकामस्य अथ हृसीयासीयागुंसमाक्रमणम् आक्रमणमेव आक्रमणमित्या आक्रमणम् एव तत् तत्सेतुम् सेतुं यजमानः कुरुते कुरुते सुवर्गस्य सुवर्गस्य लोकस्य स्वर्गस्य इति सुभागस्य लोकस्य समष्ट्यै समष्ट्यै यत् समष्ट्या इति साकस्मिन् एकस्मिन् द्वे द्वे द्वे इति द्वे रशने परिव्ययति रशने इति रशने परिव्ययति तस्मात् इति परिव्ययति तस्मादेकः एको द्वे द्वे जाये द्वे इति द्वे जाये विन्दते धाये इति धाये विन्दते यन्न नैकाम् एकाकम् प्रश्नाम् प्रशनान्दयोः द्वयोर्यूपयोः रूपयोः परिव्ययति अरिव्ययति तस्मात् अरिव्ययति इति परिव्यजयति तस्मान्न नैकाः एका द्वौ बहुपदी प्रती विन्दते पतीपदी विन्दतेयम् यङ्कामयेत कामयेत स्त्री स्त्रियस्य अस्य जायेत जाजेतेति इत्युपान्ते उपान्ते तस्य उपान्ते इत्युपान्ते तस्य व्यतिशचेर्यधिशचेत्स्त्री यदिशचेरि अतिशचेत् स्त्रियेव एवास्य अस्य जायतेः जायतेयम् यङ्कामयेत कामयेत् पुमान् पुमानस्य कस्य गायेत जायेतेति इत्यान्तम् आन्तस्य आन्तमित्या आंतं तस्य प्र प्रवेष्टयेत् वेष्टयेत् पुमान् पुमानेव एवास्य कस्य गायतेः जायते असुराः असुरा वै वै देवान् देवान्नक्षिणतः दक्षिणतौ वा उपानयन् अनयन्तान् तान् देवाः देवा उपशयेन उपशयेनैव उपशयेनेत्युपाशयेन एवाप उपानुदन्त अनुदन्त तत् तदुपशयस्य उपशयस्य इत्युपाशयस्य उपशयत्वम् यत् उपशयत्वमित्युपशया त्वम् यद्दक्षिणतः दक्षिणत उपशयः उपशय उपशये उपशय इत्युपाशयः उपशये भ्रातृव्यापलुद्धिः सर्वे भ्रातृव्यापलत्या इति भ्रातृव्या सर्वे वै वा अन्ये अन्ये यूपानः पशुमन्धः पर्शुनम् तोथा पर्षुनम् इति पशुबन्धः अथोपशयः उपशय एव उपशय इत्युपाशयः एव पशुः अवशस्तस्य तस्य यजमानः यजमानः पशुः पशुर्यत् यन्न न निर्दिशेत् निर्दिशेदार्तिम् निर्दिशेदिनिः दिशेत् आर्तिमा आर्च्छेद् ऋच्छेद्यजमानः यजमानोऽसौ असौ ते पशुः पशुरिति ईथिनिः निर्दिशेत् निषेद्यम् इम् द्विष्यात् द्विष्याद्यम् यमेव एव द्वेष्टि तमस्मै अस्मै पशुम् प्रशुन्निः निर्दिशति दिशति यदि यदि न मद्दृश्याद् दृश्यादाखुः ते पशुः पशुरिति यद् ब्रूयाद् ब्रूयान्न न ग्राम्यान् ग्राम्याम् प्रसोद् प्रसोदहिनस्तिनस्ति ना, नारण्यान् आरण्यान् प्रजापतिः प्रजापतिस्प्रजाः प्रजापतिरिति प्रजापतिः प्रजा असृजतः प्रजा इति प्राजाः असृजतसः सोऽनाड्येन अन्नाद्येन <Sess> वि अन्नाद्येनेत्यन्नाद्येन यार्ध्यत आर्ध्यत सः स एताम् एतामेकादशिनीम् एकादशिनीमपश्यत् अपश्यत्तया तया वै वै सह अन्नाद्यमित्यन्नाद्यम् अवारुन्ध अरुन्धयत् यद्दश दशयूपाः यूपा भवन्ति भवन्ति दशा अक्षरा दशा अक्षरा अक्षराः विराडन्नम् विराडिजिवीराट् अन्नम् विराट् विराड् विराजाः विराटिजिवीराट् विराजैव विराजेति वीराजाः एवान्नाद्युम् अन्नाद्यमव अन्नाद्यमित्यन्नाद्यम् अवरुम्भे गृम्भेयः एकादशः एकादशस्तनः स्तन एवास्यै अस्यै सह स दुहे दुह एव एवैनाहम् एनान्तेन तेन एषा सम् सम्मीयते मीयते यत् यदेकादशिनी यदे, यदे एकादशिनी सा सेश्वरा ईश्वरा पुरस्तात् पुरस्ताहत्प्रत्यञ्चम् प्रत्यञ्चम् यज्ञम् यज्ञकम् संवर्धितोः संवर्दितोर्यत् संवर्धितोरिति संवर्धितोः यत्पात्मीवतम् पात्मीवतम् विनोति पाग्मीपतमिति पाग्नीवतम् यज्ञस्य यज्ञस्य प्रति प्रत्युत्तभ्यै उत्तव्यैः सज्जत्वाय उत्तभ्या इत्युतस्तब्ध्यैः स यत्त्वाय प्रजापतिः प्रजाः प्रजापतिरिति प्रजापतिः प्रजा प्रजा इति प्राजाः असृजतसः स लिलिचानः लिलिचानोऽ मन्यत अमन्यतसः एताम, अपश्यत, अपश्यत् अपश्यत्तया तया वै वै सह स आयुः आयुरिन्द्रियम् इन्द्रियम् वीर्यम् वीर्यमात्मन् आत्मन्नधत्त प्रजा इति प्राजाः इव खलु खलु वै वा एषः एष सृजते सृजते यः यो यजते यजते सः स एतरिः यदेशा एषैकादशिनी एकादशिनी भवति भवत्यायुः आयुरेव एव तया तये इन्द्रियम् इन्द्रियम् वीर्यम् वीर्यम् यजमानः यजमान धत्ते धे प्रयव एवाज्ञेजेन आग्नेजेन पापयति पापयति मिथुनम् मिथुनकं सारस्वत्या सारस्वत्या करोति करोतिरेतः ते तस्सौम्येन सौम्येन दधाति दधाति प्रजनयति वारहस्पत्यो भवति भवति ब्रह्म ब्रह्म वै वै देवानाम् देवानाम् बृहस्पतिः ब्रह्मणैव एवास्मै अस्मै प्रजाः प्रजाप्र प्रजा इति प्राजाः जनयति वैश्वदेवः वैश्वदेवो भवति वैश्वदेव इति भवति वैश्वदेव्यः वैश्वदेव्यो वै वैश्वदेव्य इति प्रजाः प्रजाः प्रजाः प्रजा प्रजा एव प्रजा इति प्राजाः एवास्मै अस्मै प्रजनयति जनयतीन्द्रियम् इन्द्रियमेव एवैन्द्रेण ऐन्द्रेण वा अपरुन्धे रुन्धे विषम् विषम् मारुतेन मारुतेनौजः ओजो अबलम् बलमैन्द्राग्नेन ऐन्द्राग्नेन प्रसवाय ऐन्द्राग्नेनेत्यईन्द्राग्नेन प्रसवाय सावित्रः प्रसवायेतिप्रासवाय सावित्रो निर्वर्णत्वाय निर्वणत्वाय वारुणः निर्वरुणत्वायेति निर्वणात्वाय वारुणामध्यतः मध्यत ऐन्द्रम् ऐन्द्रमा आलभते लभते मध्यतः मध्यत एव एवेन्द्रियम् इन्द्रियम् यजमाने यजमाने दधाति दधाति पुरस्तात् पुरस्तादैन्द्रस्य ऐन्द्रस्य वैश्वदेवम् वैश्वदेवमा वैश्वदेवमिति वैश्वदेवम् आलभते लभते वैश्वदेवम् वैश्वदेवम् वै वैश्वदेवमिति वैश्वदेवम् वा अन्नम् अन्नमन्नम् अन्नमेव एव पुरस्तात् पुरस्ताद् धग्दे धग्दे तस्मात् तस्मात् पुरस्तात् पुरस्तादन्नम् अन्नमद्यते अद्यत ऐन्द्रम् ऐन्द्रमारभ्य आरभ्य मारुतम् आलभ्येत्याभ्य मारुतमा आलभते लभते विड्विड्वै वै मरुतः मरुतो विषम् विषमेव एवास्मै अस्मान् अनुबध्नाति बध्नाति यदि कामयेत कामयेत यः योऽपगतः अवगतः सः अवगत इत्यवागतः सोऽप अपरुध्यताम् ऋध्यताम् यः योऽपरुद्धः अपरुद्धः सः अपरुद्ध इत्यवा रुद्धः सोप ऐन्द्रस्य लोके लोके वारुणम् वारुणवा आलभेद लभेदवारुणस्य वारुणस्य लोके लोक ऐन्द्रम् ऐन्द्रञ्यः य एव एवावगतः अवगतः सः अवगत सोप अपरुध्यते रुध्यते यह योऽपरुद्धः अपरुद्धः सः अपरुद्ध इत्यवा रुद्धः सो यदि यदि कामयेद कामयेतप्रजाः प्रजामुह्येयुः प्रजा मुह्येयुरिति यमशोर्पशोन्यतिशचेत् यतिशचेत् प्रजाः यतिशचेदिति वि अतिशचेत् प्रजा एव प्रजायति प्राजाः एव मोहयति मोहयुर्यद् यदभिवाहतः अभिवाहतोपाम् अभिवाहत इत्यभिवाहतः अपाम् वारुणम् वारुणमालभेद आलभेद प्रजाः आलभेदेत्या आलभेद प्रजावरुणः प्रजायति प्राजाः वरुणा वृह्मेयाद् वृण्मेयादक्षिणतः दक्षिणत उदञ्चम् वुदंचं, उदञ्चमा आलभते लभते अपवाहतः अपवाहतोपाम् अपवाहत अपाम् प्रजानाम् प्रजानामवरुणग्राहाय प्रजानामिति प्राजानाम् अवरुणग्राहायेत्यवरुणाग्राहाय इन्द्रः पत्न्या पत्न्या ताम् पर्यज्ञकृताम् पर्यज्ञकृता मद् पर्यज्ञकृता पर्यज्ञीकृताम् वदसजत् असजत्तया तया मनोः पुनरार्धोत् आघ्नोद्यत् यत्पर्यज्ञकृतम् पर्यज्ञिकृतम् वाग्मीवतम् पर्यज्ञिकृतमिति पर्यज्ञीकृतम् आग्नेव्रतमुत्सृजति आग्नीव्रतमिति वाग्मीवतम् उत्सृजति याम् उत्सृजतिसृजति यामेव एव मनुः वृद्धिमाध्नोत् आर्ध्नोत्ताम् तामेव एव यजमानः यजमानरुद्धोति रुद्धोति यज्ञस्य यज्ञस्य वै वा प्रतिष्ठितात् अप्रतिष्ठिताद्यज्ञः अप्रतिष्ठितादित्यप्रतिष्ठितात् यज्ञः पराः परा भवति भवति यज्ञम् यज्ञम् परा भवन्तम् परा भवन्तम् यजमानः परा भवन्तमिति परा भवन्तम् यजमानो नो अनुपराः परा भवति भवति यत् यदा आद्येन आज्ञे वदमिति वाग्नीवदम् अर्गस्थापयति यज्ञस्य अर्ग्स्थापयतीति संस्थापयति यज्ञस्य प्रतिष्ठित्यै प्रतिष्ठित्यै यज्ञम् प्रतिष्ठिद्य यज्ञम् प्रतिष्ठन्तम् प्रतितिष्ठन्तम् एवास्य अस्य यामः यामस्त्वाष्ट्रः त्वाष्ट्रो भवति भवति प्रष्टा पृष्टा वै वै रेतसः रेतसः सिक्तस्य सिक्तस्य रूपाणि रूपाणि वि विकरोति करोति तमेव एव वृषाणम् विषाणम् पत्नीषु पत्नीष्वपि अपि सृजति सृजति सोऽस्मै अस्मै रूपाणि रूपाणि वि विकरोति करोतीति करोति घ्नन्ति वा एतद् एतत्सोमम् सोमं यत् यदभिशृण्वन्ति अभिशृण्वन्ति यत् अभिशृण्वन्ति सौम्यो भवति भवद्यथा यथा मृताय मृतायुस्तरणीम् अनुस्तरणीम् अनुस्तरणीमित्यनोस्तरणीम् घन्ति तादृग् तादृगेव एतद् तद यदुत्तरार्धे उत्तरार्धे वा उत्तरार्ध इत्युत्तरार्धे वा मध्ये मध्ये वा जुहुयात् जुहुयाद्देवताभ्यः देवताभ्यः समदम् समदम् दध्यात् समदमिति सामदम् दध्याद्दक्षिणार्थे दक्षिणार्धे जुहोदि दक्षिणार्थ इति दक्षिणार्धे जुहोद्येषा एषा वै वै पितृणाम् पितृणान्यक् सायामेव एव इशि पितृपितृनिरवदयते निरवदयत उद्गातृभ्यः निरवदयत इति निः अपदयते उद्गातृभ्यो हरन्ति उद्गातृभ्य इत्युद्गातृभ्यः हरन्ति सामदेवत्यः सामदेवत्यो वै सामदेवत्यै इति सामदेवत्यः वै सौम्यः सौम्यो यत् यदेव एव साम्नः साम्नश्चम्बट्कुर्वन्ति छम्बट्कुर्वन्ति तस्य छम्बट्कुर्वन्तीति छम्भटे कुर्वन्ति तस्यैव एव सः स्वशान्तिः शान्तिरव अवेयिषन्ते ईक्षन्ते पवित्रम् पवित्रम् वै वै सौम्यः सौम्य आत्मानम् आत्मानमेव एव पवयन्ते पवयन्ते यः य आत्मानम् आत्मानन्न न परिपश्येत् परिपश्येदितासुः परिपश्येदिति परिपश्येत् पितासु स्यात् पितासुरिगीतासुः स्यादभिददिम् अभिददिम् कृत्वा अभिददिमित्यभिददिम् कृत्वा वा अवे ईक्षेत ईक्षेत तस्मिन् तस्मिन् हि या आत्मानम् आत्मानम् परिपश्यति परिपश्यत्यथोः परिपश्यतीति परिपश्यति अथो आत्मानम् रथो इत्यथोः आत्मानमेव एव पवयदे पवयते यः यो गतमनाः गतमना स्यात् गतमना इति गतामनाः स्यात्सः सो वा यन्मे मे मनः मनःपरागतम् परागतम् यत् परागतमिति परा आगतम् यद्वाह वामे मे अपपरागतम् अपरागतमित्यपरागतम् राज्ञा सोमेन सोमेन तद्वयम् वयमस्मासु अस्मासु धारयामसि धारयामसीति इति मनः मन एव एवात्मन् आत्मन्नाधार नाधारण न गतमनाः गतमना भवति गतमना इति गतामनाः भवत्यप अभवै मयि तृतीयसवने तृतीयसवने यज्ञः तृतीयसवन इति तृतीयासवने यज्ञः क्रामति क्रामतीजानाद् ईजानादनीजानम् अनीजानमभि अभ्या आज्ञावैष्णव्या आज्ञावैष्णव्यच्च आज्ञावैष्णव्येत्याग्ना वैष्णव्या न च घृतस्य घृतस्य एतदि एद्यग्निः अग्निः सर्वाः सर्वा देवताः देवता विष्णुः विष्णुर्यज्ञः यज्ञो देवताः देवताश्च चैव एव यज्ञम् यज्ञम् च राधार आधारोपागुंषु उपागुंषु यजति उपायष्विद्युपागुंषु यजति मिथुनत्वाय मिथुनत्वाय ब्रह्मवादिनः मिथुनत्वाय इति मिथुनात्वाय ब्रह्मवादिनो वदन्ति ब्रह्मवादिन यदि ब्रह्मवादिनः वदन्ति मित्रः मित्रो यज्ञस्य यज्ञस्य स्विष्टम् स्वेष्टम् युवदे स्विष्टमिति सो इष्टम् युवते वरुणः वरुणो दुरिष्टम् दुरिष्टम् क्व दुरिष्टमिति तु सो तर्हि तर्हि यज्ञः यज्ञः क्व क्व यजमानः यजमानो भवति भवतीति इति यद् यन्मैत्रावरुणीम् मैत्रावृणीम् वशाम् मैत्रावरुणीमिति मैत्रावरुणीम् वशामालभते आलभते मित्रेण आलभ इत्यालभते मित्रेण इव एव यज्ञस्य यज्ञस्य श्रेष्ठम् श्रेष्टकं शमयति श्रेष्ठमिति सो इष्टम् शमयति वरुणेन वरुणेन दुरिष्टम् दुरिष्टम् न दुरिष्टमिति दुहो इष्टम् आर्तिमा आर्च्छति पृच्छति यजमानः यजमानो यथा यथा वै वै लाङ्गलेन लाङ्गलेनोर्वराम् उर्वराम् प्रभिन्दन्ति प्रभिन्दन्त्येवम् प्रभिन्दन्तेति प्रभिन्दन्ति एवम् रक्षसामे रक्सामे यज्ञम् रक्षसामे इत्युक्सामे यज्ञम् प्रभिन्दः भिन्दो यद् यन्मयित्रावृणीम् मैत्रावृणीम् वृषाम् मैत्रावृणीमिति मैत्रावृणीम् वशामालभते आलभते यज्ञाय आलभत इत्यालभते यज्ञायैव एव प्रभिन्नाय प्रभिन्नाय मत्यम् प्रभिन्नाय दिप्रा भिन्नाय मत्यमन्ववा हस्यति अन्ववास्यति शान्तिः अन्ववास्यतीत्यनोभवास्यति शान्ति यातयामानि यातयामानि वै यातयामानीति यातायामानि वा एतस्य एतस्य छन्दाकंसि छन्दाकंसि यः ययी जानः ये एष रसः रसो यत् यद्वशा रसायत् यन्मैत्रावृणीम् मैत्रावृणीम् वशाम् मैत्रावृणीमिति मैत्रावृणीम् वशामालभते आलभते छन्दागुंसि आलभत इत्यालभते छन्दाकस्येव एव पुनः पुनरा आप्रीणादि प्रीणात्यातयामत्राय अयातयामत्रायाथोः ययातयामत्वायति यादयामात्राय अथो छन्दस्तु अथो यद्यथोः छन्दस्वेव छन्दस्विति छन्दः सो एव रसम् रसन्दधाति दधातीति दधाति देवा वै वा इन्द्रियम् इन्द्रियम् वीर्यम् वीर्यम्भजन्त अभजन्त ततः ततो यत् यदत्यशिष्यत अत्यशिष्यतत् अत्यशिष्यते यदि अशिष्यत तदतिग्राह्याः अतिग्राह्या अभवन् अतिग्राह्या इत्यदिग्राह्याः अभवन्तत् तदधिग्राह्याणाम् अधिग्राह्याणामधिग्राह्यत्वम् अधिग्राह्याणामित्यधिग्राह्याणाम् अधिग्राह्यत्वम् यत् अधिग्राह्यत्वमित्यधिग्राह्यात्वम् यदधिग्राह्याः अधिग्राह्या दृश्यन्ते अधिग्राह्या इन्द्रियमेव एव तत् तद्वीर्यम् वीर्यम् यजमानः यजमान आत्मन् आत्मन्धत्ते धे तेजः तेजः आग्नेयेनेहिन्द्रियम् इन्द्रियमैन्द्रेण ऐन्द्रेण ब्रह्मवर्चसम् ब्रह्मवर्चसकम् सौर्येण ब्रह्मवर्चसमिति ब्रह्मवर्चसम् सौर्येणोपस्तम्भनम् उपस्तम्भनम् वै उपस्तम्भनमित्युपास्तम्भनम् एतत् एतद्यज्ञस्य यज्ञस्य यत् यदतिग्राह्याः अतिग्राह्याश्चक्रे अतिग्राह्यादि ग्राह्याः चक्रे पृष्ठानि चक्रे इति चक्रे पृष्ठानि यत् यत्पृष्ठ्येः पृष्ठ्येन न गृह्णीयात् प्राञ्चम् प्राञ्च यज्ञम् यज्ञम् पृष्ठानि पृष्ठानि सम् सगुं शृणेयुः शृणेयुर्यद् यदुक्ते उक्थे गृह्णेयात् गृह्णीयात् प्रत्यञ्चम् प्रत्यञ्च यज्ञम् यज्ञमधिग्राह्याः अतिग्राह्याः सम् अधिग्राह्या इतिग्राह्याः सगुं शृणेयुः शृणेयुर्विश्वजिति विश्वजिति सर्वपृष्ठे विश्वजिति विश्वजिति सर्वपृष्ठे गृहीतव्याः सर्वपृष्ठ इति सर्वा पृष्ठेः अहेदव्या यज्ञस्य यज्ञस्य सवीर्यत्वाय सवीर्यत्वाय प्रजापतिः सवीर्यत्वायेति सवीर्यात्वाय प्रजापतिर्देवेभ्यः प्रजापतिरतिर्प्रजापतिः देवेभ्यो यज्ञान् यज्ञान्यादिशत् व्यादिशत्सह व्यादिशदिति आदिशत् स प्रियाः प्रियास्तनोः तनोरप अपनि यधत्त अथर्धत् तदतिग्राह्याः अतिग्राह्याभवन् अतिग्राह्या इत्यग्राह्याः अभवन् वितनुः वितनुस्तस्य वितनुरिति यज्ञः यज्ञ इति इत्याहुः आहुल्यस्य यस्याधिग्राह्याः अधिग्राह्या न गृह्यन्ते गृह्यन्त इति इत्यपि अप्यग्निष्टोमे अग्निष्टोमे ग्रहीतव्याः अग्निष्टोमे इत्यग्नि स्तोमे ग्रहीतव्या यज्ञस्य यज्ञस्य शतनुत्वाय सदनुत्वाय देवताः सतनुत्वाय इति सदनुत्वाय देवता सर्वाः सर्वाः सदृशीः सदृशीरासन् आसन्ताः तान् व्यावृतम् व्यावृतमगच्छन् व्यावृतमिति आवृतम् अगच्छन्ते ते देवाः देवा एते एतदेतान् एतान् ग्रहान् ग्रहान् अपश्यन् अपश्यन्तान् तानगृह्णत अगृह्णताज्ञेयम् आज्ञेयमग्निः अग्निरैन्द्रम् ऐन्द्रमिन्द्रः इन्द्रः सौर्यम् सौर्यपुम् सूर्यः सूर्यस्ततः ततो वै वै ते तेऽन्याभिः अन्याभिर्देवताभिः देवताभिर्व्यावृतम् व्यावृतमगच्छन् व्यावृतसजीवी आवृतम् अगच्छति यस्य यस्य इमम् एवं विदुषः विदुष एते एते ग्रहाः ग्रहाः गृह्यन्ते गृह्यन्ते व्यावृतम् व्यावृतमेव व्यावृतमिति व्यावृतम् एववाप्मना पाप्मना भ्रातृव्येण भ्रातृवेण गच्छति गच्छति इमे लोकाः लोकाज्योतिष्पन्दः ज्योतिष्पन्दः समावद्वीर्याः समावद्वीर्याः कार्याः समावद्वीर्या इति समावद्वीर्याः कार्या इति इत्याहुः आहुराग्नेयेन आग्नेयेनास्मिन् अस्मिन्लोके लोके ज्योतिः ज्योतिर्धत्ते धत्त ऐन्द्रेण ऐन्द्रेण अन्तरिक्षे अन्तरिक्ष इन्द्रवायु इन्द्रवायु हि इति इन्द्रवायु इ सयुजौ सयुजौ सौर्येण सयुजाविधि सायुजौ सौर्येणामुष्मिन् अमुष्मिन्लोके लोके ज्योतिः ज्योतिर्धत्ते दत्ते ज्योतिष्पन्दः ज्योतिष्पन्दोस्मै अस्मा इमे लोकाः लोका भवन्ति भवन्ति समावद्वीर्यान् समावद्वीर्यानेनान् समावद्वीर्यानिति समावदवीर्यान् कुरुते कुरुत एतान् एतान् वै वै ग्रहान् ग्रहान् बम्बा बम्बा विश्ववयसा बम्बा विश्ववयसा विम्बा विश्ववयसौ अवित्तान् इमे लोकाः लोकाः पराञ्चः पराञ्चश्च अर्वाञ्चश्च च प्र प्राभुः अभुर्यस्य यस्यैवम् एवं विदुषः विदुष एते एते ग्रहाः ग्रहा गृह्यन्ते गृह्यन्ते प्र प्रास्मै अस्मा इमे इमे लोकाः लोकाः पराञ्चः पराञ्चश्च चार्वाञ्चः अर्वाञ्चश्च च भान्ति भान्ति भान्ति एवावै वैर्यज्ञे यज्ञे कुर्वत अकुर्वत तत् तदसुराः असुराः अकुर्वत अकुर्वतते देवा हे देवाः देवादाभ्ये तदाभ्ये छन्दागंसि छन्दागंसि सवनानि सवनानि सम् समस्थापयन् अस्थापयन् ततः ततो देवाः देवाभवन् अभवन् पराः परासुराः असुरा यस्य यस्यैवम् एवम् विदुषः विदुषोदाभ्यः तदाभ्यो गृह्यते गृह्यते भवति भवद्यात्मना आत्मना परा, परा परास्य अस्य भवति यत् यद्वै वै देवाः देवासुरान् असुरानदाभ्येन अदाभ्येनादभ्रुमन् अदभ्रुमन् तत् तददाभ्यस्य अदाभ्यस्य अदाभ्यत्वम् अदाभ्यत्वम् यः अदाभ्यत्वमित्यदाभ्यात्वम् एवम् एवम् वेद वेददघ्नोति दग्नोन्त्येव एव भ्रातृव्यम् भ्रातृव्यन्न नैनम् एनम् भ्रातृव्यः भ्रातृव्यो दग्नोति दग्नोन्त्येषा एषा वै त्वयि प्रजापतेः प्रजापतेरतिमोक्षिणीः अधिमोक्षिणी नाम अधिमोक्षिणीत्यधिमोक्षिणीः नाम तनोः तनोर्यत् यददाभ्यः तदाभ्य उपनद्धस्य उपनद्धस्य गृह्णाति उपनधस्येत्युपानद्धस्य गृह्णात्यतिमुक्त्यै अतिमुक्त्या अति अतिमुक्त्या इत्यतिमुक्तिः अतिपाप्मानम् पाप्मानम् भ्रातुर्यम् भ्रातुर्यम् उच्यते उच्यते यः यदेवम् एवम् वेद वेदघ्नन्ति घन्ति वै एतत्सोमम् सोमन्यत् यदभिशृण्वन्ति अभिशृण्वन्ति सोमेः अभिशृण्वन्तित्यभिशृण्वन्ति सोमे हन्यमाने हन्यमाने यज्ञः यज्ञो हन्यते हन्यते यज्ञे यज्ञे यजमानः यजमानो ब्रह्मवादिनः ब्रह्मवादिनो वदन्ति वदन्ति किम् किम् यज्ञे यजमानः यजमानः कुरुते कुरुते तेन येन जीवन् जीवन् स्वर्गम् स्वर्गम् सुभागम् लोकमेति एतीति इति जीवग्रहः जीवग्रहो वै जीवग्रह इति जीवाग्रहः वा एषः एष यत् यददाभ्यः अदाभ्योऽनभिषुतस्य अनभिषुतस्य गृह्णादि अनभिषुतस्येत्यनभीष्टस्य जीवन्तमेव एवैनम् एनकम् स्वर्गम् लोकम् स्वर्गमिति सुभागम् लोकम् गमयति गमयति वि वा एतद् एतद् यज्ञम् यज्ञम् छिन्दन्ते छिन्दन्ति यत् तदाभ्ये सर्गस्थापयन्ते सर्गस्थापयन्ति पुंशोन् सर्गस्थापयन्ति इति संस्थापयन्ते रपुंशोऽनपि अपि सृजगे यज्ञस्य यज्ञस्य सन्दत्यै इति सन्दत्यै देवा वै प्रवाहुग्रहान् प्रवाहुरिदिप्रबाहुप्रहान् गृह्णत अगृह्णतसः स एतम् एतम् प्रजापतिः प्रजापतिरघुंशुम् प्रजापतिरिति प्रजापतिः रघुंशुमपश्यत् अपश्यत्तम् तमगृह्णीत अगृह्णीत तेन तेन वै विदुषः विदुषो पुंशो अपुंशुर्गृह्यते गृह्यतर्ध्नोति गृध्वान्त्येव एव सकृतभिषुतस्य सकृदभिषुतस्य गृह्णाति सकृतभिषुतस्य हि सकृत अभिषुदस्य गृह्णाति सकृत् सकृद्धि हि सह स तेन मनसा गृह्णाति गृह्णाति मनः मन इव इव हि हि प्रजापतिः प्रजापतिः प्रजापतेः प्रजापतिरतिप्रजावृः प्रजापतेरापीः प्रजापतेरतिप्रजावृः आप्या औदुम्बरेण औदुम्बरेण गृह्णाति गृह्णात्योर्ग् ऊर्ग्वै वा ऊदुम्बरः ऊदुम्बरऊर्जम् ऊर्जमेव एवाव अवरुन्धे रुन्धे चतुस्रग् चतुस्रग् भवति चतुस्रग् दिक्षतो स्रग् भवति दिक्षु दिक्ष्वेव एव प्रति प्रतिष्ठति तिष्ठति यः यो वै वा गुंशोः गुंशोरायतनम् आयतनम् वेद आयतनमित्या आयतनम् वेदायतनवान् आयतनवान् भवति आयतनवानित्यायतनावान् भवति वामदेव्यम् वामदेव्यमिति वामदेव्यमिति वामादेव्यम् इति साम सा तद्वै वा अस्य अस्यायतनम् आयतनम् मनसा आयतनमित्या आयतनम् मनसा गायमानः गायमानो गृह्णादि गृह्णात्यायतनवान् आयतनवानेव आयतनवानित्यायतनवान् एव भवति भवति यत् यदद्धर्युः अद्धर्युरपुंशुम् पुंशुम् गृह्णन् गृह्णन् नार्धयेत् अर्धयेदुभाभ्याम् उभाभ्यान्न अर्ध्येत अध्येताद्धर्यवे अध्वर्यवे च येजमानाय यजमानाय च यत् यदर्थये अर्थयेदुभाभ्याम् उभाभ्याम् ऋध्येत ऋध्येतानवानम् अनवानम् गृह्णाति अनवानमित्यनवानम् गृह्णाति सा सैव एवास्य अस्यर्धिः वृद्धिर्हिरण्यम् हिरण्यमभि अभिरि यनि अनित्यमृतम् अमृतम् वै वै हिरण्यम् हिरण्यमायुः आयुःप्राणः प्राण आयुष इव एवामृतम् अमृतमपि अभिधिनोति दिनोति शतमानम् शतमानम् भवति शतमानमिति शतमानम् भवति शतायुः शतायुः पुरुषः शतायुरिति शता आयुः पुरुषः शतेन्द्रियः शतेन्द्रिय आयुषि इति शता इन्द्रियः एवेन्द्रिये इन्द्रिये प्रति प्रतिष्ठति तिष्ठति इति तिष्ठति प्रजापतिर्देवेभ्यः प्रजापतिरिति प्रजापतिरि देवेभ्यो यज्ञान् व्याधिषत्सः व्याधिषदिति व्यादिशत् स रिचानः ऋविचानो अमन्यत अमन्यत सः स यज्ञानाम् आत्मानमभि अभिसम् समक्षिदत् अक्षिदत्तत् तच्छोडशी षोडश्यभवत् अभवन्न न वै वै षोडशी षोडशी नाम नाम यज्ञः यज्ञो अस्ति अस्ति यत् यद्वाव वावषोडशम् षोडशग्स्तोत्रम् स्तोत्रकं षोडशम् षोडशकं शस्त्रम् शस्त्रम् तेन तेन षोडशी षोडशी तत् तच्छोडशिनः षोडशिनः षोडशित्वम् षोडशित्वम् यत् षोडशित्वम् इति षोडशीत्वम् इन्द्रियमेव एव तत् तद्वीर्यम् यजमानः आत्मन् आत्मन्धे धद्दे देवेभ्यः देवेभ्यो वै वै सुवर्गः सुभागः लोको न न भवत् अभवत्ते त एतम् एतदं षोडशिनम् षोडशिनोपश्यन् अपश्यन्तम् तमगृह्णत अगृह्णत ततः वैतेभ्यः तेभ्यः स्वर्गः स्वर्गो लोकः स्वर्ग इति सुवभागः लोकः प्र प्राभवत् अभवद्यत् स्वर्गस्य स्वर्गस्य लोकस्य स्वर्गस्य इति सुवभागस्य लोकस्याभिजित्ति अभिजित्या इन्द्रः अभिजित्या इत्यभिजित्तिः इन्द्रो वै वै देवानाम् देवानामानुजावरः आनुजावर आसीत् आनुजावरैत्यानुजावरः आसीत् सः स प्रजापतिम् प्रजापतिमुप प्रजापति प्रजापतिम् उपाधावत् अधावत्तस्मै तस्मादेतम् एतदम् षोडशिनम् षोडशिनम् प्र प्रायच्छत् अयच्छत्तम् अमगृह्णीत अगृह्णीत वै वै सोऽग्रह्मम् अग्रम् देवतानाम् देवतानाम् परि पर्यैर् अयद्यस्य यस्यैवम् एवम् विदुषः विदुषः षोडशी षोडशी गृह्यते गृह्यते ग्रह्मम् अग्रमेव एव समानानाम् समानानाम् परि पर्येति एति प्रातःसवने प्रातःसवने गृह्णाति प्रातःसवने इति प्रातः सवने गृह्णाति वज्रः वज्रो वै वज्रः वज्रः प्रातःसवनम् प्रातः समनमिति प्रातः सवनम् स्वादेव एवैनम् एनम् योनेः योनेर्निः निर्गृह्णाति गृह्णाति सवने सवने सवने सवनेऽभि सवने सवनेति सवने सवने अभिगृह्णाति गृह्णाति सवनात्सवनाद् सवनात् सवनादेव सवनात्सवनादिति सवनात् सवनात् एवैनम् एनम् प्रजनयति जनयति तृतीयसवने तृतीयसवने पशुरामस्य तृतीयसवन इति तृतीयसवने पशुगामस्य गृह्णीयात् पशुगामस्य इति पशुगामस्य गृह्णीयाद्वज्रः वज्रो वै वै षोडशी षोडशी पशवः पशवस्तृतीयसवनम् तृतीयसवनम् वज्रेण तृतीयसवनमिति तृतीयसवनम् वज्रेणैव एवास्मै अस्मै तृतीयसवनाद् तृतीयसवनात्पशोन् तृतीयसवनादिति तृतीयसवनात् पशो नव अवरुन्धे रन्धेन नोक्त्ये उक्त्ये गृह्णीयात् गृह्णीयात्प्रजा प्रजा, प्रजा वै प्रजेति प्राजा वै पशवः पशव उक्थानि उक्थानि यद् यदुक्थे उक्थे गृह्णीयात् गृह्णीयात्प्रजाम् प्रजाम् पशोन् प्रजामिति प्राजाम् पशोदस्य अस्य निः निर्ग्रहेत् अहेदि रात्रे अधिरात्रे पशुगामस्य अधिरात्र इत्यधिरात्रे पशुगामस्य गृह्णीयात् पशुगामस्य यदि पशुगामस्य गृह्णीयाद्वज्रः वज्रो वै वै षोडशी वज्रेण वज्रेणैव एवास्मै अस्मै पशून् पशूनवरुध्य अवरुध्यरात्र्या अवरुध्येद्यवरुध्य रात्र्योऽपरिष्टाद् उपरिष्टात् शमयति शमयत्यपि अप्यग्निष्टोमे अग्निष्टोमे राजन्यस्य अग्निष्टोमे इत्यग्ने स्तोमे राजन्यस्य गृह्णीयाद् गृह्णीयाद्व्यावृत्कामः व्यावृत्कामो हि व्यावृत्काम इति हि राजन्यः राजन्यो यजते यजते साह्ने साह्न एव एवास्मै अस्मै वज्रम् वज्रम् गृह्णाति गृह्णाति सः सदेनम् एनम् वज्रः वज्रो भोत्यै भोग्या इन्धे इन्धेनिः निर्वाह बाधहति तहत्येकविगुंशम् एकविभुंशज्ञस्तोत्रम् एकविगुंसमित्येका प्रिष्थित्य, विपुंशम् भवति भवति प्रतिष्ठित्यै प्रतिष्ठित्यै प्रतिष्ठित्या इति प्रतिष्ठित्य हरिवत् शस्यते हरिवदिति हरीवत् शस्यते इन्द्रस्य इन्द्रस्य प्रियम् धामा धामोप उपा आत्नोति आत्नोति कनीयागुंसि कनीयागुंसि वै वै देवेषु देवेषु छन्दागुंसि छन्दाकस्यासन् आसन् ज्याजागुंसि ज्याजागस्य असुरेषु असुरेषु ते हे देवाः देवाः कनीयसा ध्यायच्छन्दः छन्दोभि अभिविशगुंसन् अशकुंसन्ततः ततो वै वैते तेऽसुराणाम् असुराणाम् लोकम्वृञ्जत अवृञ्जत यत् यत्क्रनीयसा कनीयसा छन्दसा छन्दसा ध्यायः ध्यायच्छन्दः छन्दोभि अभिविषकुंसति विषगुंसति भ्रातृव्यस्य विशकुंसतीति विषकुंसति भ्रातृव्यस्यैव एव तत् तल्लोकम् लोकम् वृञ्जे वृन्ते षडक्षराणि अक्षराण्यदि अतिरेचयन्ति रेचयन्ति षट् षड्वै वा ऋतवः ऋतव ऋतून् ऋतूनेव एव प्रीणादि प्रीणादि चत्वारि चत्वारि पूर्वाणि पूर्वाण्यव अवकल्पयन्ति कल्पयन्ति चतुष्पदः चतुष्पद एव अवरुन्धे रन्धे द्वे उत्तरे द्वे इति उत्तरे द्विपदः उत्तरे इत्युदतरे द्विपद एव द्विपदै द्विपदः एवाव अवरुन्धे वृन्धेऽनुष्टुभम् अनुष्टुभमभि अनुष्टुभमित्यनोष्टुभम् अभिसम् सम्पादयन्ति पादयन्ति वा द्वै वा अनुष्टुप् अनुष्टुब्दस्मात् तस्मात् प्राणानाम् प्राणानाम् वा प्राणानामिति प्राणानाम् वागुत्तमा उत्तमा समयाविशिले उत्तमे इत्यतो समयाविशिते सूर्ये समयाविशित इति समयाविशिते समया सूर्ये षोडषिणः षोर्षिणः स्तोत्रम् स्तोत्रमुपाकरोति उपाकरोत्येतस्मिन् उपाकरोतीत्युपाकरोति एतस्मिन्वयि लोके लोकेन्द्रः इन्द्रो वृत्रम् वृतमहन् अहन् साक्षादेव साक्षा साक्षा साक्षादिति साक्षाद् एव वज्रम् वज्रम् भ्रातुव्याय भ्रातुरव्यायप्रहरति अरुणभिषङ्गोऽश्वः अरुणभिषङ्ग इत्यरुणाभिषङ्गः अश्वो दक्षिणः दक्षिणैतत् एतद्वै वै वज्रस्य वज्रस्य रूपम् रूपकम् समृद्ध्यै समृद्ध्याय समृद्धि षष्ठकाण्डे षष्ठः प्रश्नः सम्पूर्णम्